ॐ um... च त्वादाष्ट जानपपवदयो सर्वे यज्ञस्य नात्वादै यज्ञस्य जना नित्वाय देवा वै यज्ञं पराजयम् ददमाज्ञे ध्रात्पुनर्पाजयम् मेदत्वे यज्ञस्यापराजितञ्जलाग्नेय ध्राद्विष्टहरियदेव यज्ञस्यापराजितञ्जलदेवैनं पुनस्त पराजित्येव ग्ने विहलपरिभिस्तृणाहि पुरोगुम् अलङ्कुर्जयत्यमे वाजत्य पुनस्तन् बालायन्त्यङ्गाभिहलतिशलागाभिस्त्रीकर्ताया सोऽभरत्येवन्तेभ्योममाहरन्तमन् पायन्तं परिचयन्दरे परिभेष्ट े नामो वा असृष्टियास्तस्माद्विनाशन्ते सोमपीठम्पत्तिहायत्करोपीठेन दन्तदेवा वैया प्राचेराहुते रजहवर्ये पुरस्तादसभा संतागस्ताभिप्राणुदन्तया प्रदेचेर्यै पश्चादसभा संतागस्ताभिरपानुदन्त प्राचेरन्या आहुदयो हूयन्ते प्रत्यङ्गादिनोधिष्ठिया पश्चाच्चैव पुरस्ता चैलवाद्रव्यान् प्रणुदे तस्मात् तदा प्रजा प्रवीयन्ते प्रदेजेन प्राणावाले च यद्धिष्टा इदद्धर्यः प्रत्यङ्गे प्राणान् सङ्गर्हे प्रमायकस्यान्नाभिज्ञस्य खलु चकम् सम्प्रयच्छेदुपदातु ब्रह्मपादिनो वदन्ति नो मे प्रप्योतिजादश कथा दाक्षिणानि होतु मे दिना मोहित यामम्बायामम्बा न ज्ञास्यन्तीत्युत्तरेणाग् परीत्यजुहोदिताक्षिणायण प्राणान् सङ्करितधिष्ठया उप्यन्ते नान्येयान्निवपदिते नतान्यान्न ना निवपदियधन दिशजिते नतान् सुवर्गाय वा एतानि लोकाय होयन्द्रे यद्वै सर्गना विद्वाभ्याङ्गापतिवाक्रमदाहमणिजेजुहो विजुवर्गवेमैनं लोकङ्गमयति देवानुभयुवर्गं लोकं यतो रक्षागस्य जिगागं सन्ते सो मेधाज्ञानक्षागस्य महत्याप्तुमात्मानम् कृत्वा तु वर्गं लोकमायम् जरक्षतामनुबला भागा तस्वापत्यथ वैधर्जनानिरक्षतामवहन्ते ्याहनोगर्ध्येदामित्याहो ऋणस्कृते लोकस्याभिने ग्रान्ना वा दिव्याधिकमाग्नेपवादेपपादे सौम्यत्या प्रपादयति देवतया प्रपादयत्तरीत्या देवानुपैदेतमहम् मनुष्यो मनुष्यानित्याह मनुष्यो क्ये मनुष्यानुपैदियदे ब्रूजागम् प्रजामानस्य य स्तोषे नेत्याः प्रजगेव पदभिः सहमल्लोकमुपावेन नमो देवे मेत्याः नमस्कारो हि देवानाय स्वधा पितृभ्यनित्याः स्वधा कालो हि पितृणापितमहन्निर्वरुणस्य पाशा नित्याः वरुणभाषा देवजर्मोच्यते प्रदपद आत्मनः पूर्वादनो राजे पुनर्वाददा जनवेद्रावामस्तराज्ञा मलिम्लसेनाय एवम् विद्वान् राविण्णाग्नेपवादेशैनम् मलिम्लुसेना विन्दते वैष्णव्यचा हुत्वायो भवच्छैदि वैष्णवो वै देवतया पस्मदैवैनम् देवदगाच्छेत्यज्ञानकान्नानुपागामित्याहादित्यम् ज्ञाने लिदान्यानुमये सर्वार्ता परेरपिदम् परोवहेत्याहात्माख्ययनम् परेन्दति परोवहे स्तन्दाजिदेवैवान् देवयज्ञानीत्याह देवत्येन जगते देवस्तानुमितामद्वाह ैस्पति हवद्रोभये श्रान्त्यै स्वथमेन सकलेन ने प्रथमशकल परापदे तमप्याहरेच्छदे जगमेवै नमाहरतेभ्यजदिवमग्रे नमालेरं देहध्य नेरित्या य दिवनस्पते शतवलशोऽभिहे या कश्चनस्मादा कश्चना वृक्षाणाम् भोजागुम्ौत्रन्द्रियस्रवलशा विवय गुरुतामाशा त्रयशसङ्गम् वृष्ट्याङ्गम् वृष्ट्या धैयमास्य प्रवारिवश्च यं कामनेता प्रदक्षितस्यादित्या रोहन्तस्मै वृष्ट्य देशमेव नस्पती नाम प्रदक्षिता प्रदक्षित एव भवति जयङ्कामस्यायित्यन्दस्मै दुष्काग्रं वृष्ट्य देशमेव नस्पतीनाम पधव्या पशुभवधुमान् श्याजि बहुपन्यस्मै बहुदाखं वृष्ट्य देशमेव नस्पतीनां ष्ठितो यस्य मे भो स्वायपतिष्ठति यः प्रत्यङ्गुपनृष्ठस्मै दृष्ठेभ्येतोक्षरा पञ्चन्तो यज्ञो नैनमुत्तरो यज्ञो नैव प्रतिष्ठति धारिकामस्य तेजस्कामस्य त्रिवदास्तो तेजस्त्रेजस्त्व भवत्यैकादशानत्यमिन्द्रियगामस्यैकादशाक्षरः त्रीन्द्रियम् पञ्चदशानत्यम् भ्रातव्यवधः पञ्चदशावद्र भ्रातव्या भवत्ये सप्तदशानत्यम् प्रजागामस्य सप्तदः प्रदापयः प्रजापेवा एकविंशत्यरत्यम् प्रतिष्ठागामस्यैकविंश स्तोमानाम् प्रतिष्ठा प्रतिष्ठित्यास्ताश्रद्भवत्यष्टाक्षरा गायत्री तेजो गायत्र्ये गायत्र्ये यज्ञमुखम् तेजसेव गायत्रि गायज्ञमुखेन संविदः त्वान्तरिक्षायत्वादिवे त्वेप्याहरेभ्यदेवेन लोकेभ्यः प्राक्षति पराक्षति पराय भगिषभर्गो लोकः क्रोरपिभवने तत्करो निखादयत् बर्हि निखातस्यास्तेर्यमिनोच्यस्यामेव संविधाय ज्येष्ठामस्य मन क्रीडमानमेव तेजसा रक्षान्तमनक्षान्तमेव यजमानं तेजसा रक्ष्य सर्वः परमसत्यपरिवर्गमेवास्मिन् तेजो तथा लोकानां कामया न त्यजसैनम् देवताभिरिन्द्रियेण व्यर्थया निमित्य ज्ञेष्ठान्दस्याश्रिमाहवनीयासंवाचनावय त्यजसैवैनम् देवताभिरिन्द्रियेण व्यर्थयति परिव्यजत्योर्गेरसनावितमानेन योपः संवितो जनमानमेवोर्जासमर्थे दिनाभिलग्ने परिव्येदिनाभिलग्न एवास्पावोर्जन्तस्पान्नाभिलग्नवोर्जाभुञ्जदै कामय तोर्जैनं व्यर्थयमित्योर्ध्वाम्बादस्यावाजेम्बावो भेदोर्देवैनं व्यर्थयति यदि कामयदमर्जन्यस्याजित्यवाजेमवो भेदृष्टिमेव नियच्छति यदि कामयेदावर्षकस्यादित्योर्ध्वामदो हे कृष्णमेवोऽक्षति पितृणाङ्गालं मनुष्याणामोध्वनिकादारशनाया वोढधेना गौरसना विश्वे यन्ते मन्यन्तमनश्चान्वा भविष्यन्ति सुभर्गं लोकमागन्तमृषयोद्योपस्य यो भक्तं विनोति सुभर्गस्य लोकस्य प्रज्ञाप्ते पुरस्तान् तिरिक्तमासीत्तिरिक्तम् वा एतद् यज्ञस्य यदग्ना भग्निम् अधित्वा प्रहत्यतिरिक्तमेतद्योपस्थगतो ध्वन्तकालात् वातादेव तेन प्रेणाति देवावेदग्रस्थिते सोमे प्रस्तुतो हरं परोपन्ते मन्यन्तयज्ञतान्ग्रस्थिते सोमे भोतिश्वर उपने सार स्मिन् लोगः सुन्दान्यकिञ्चनमिषत्ते अग्निमेवाग्निमाः प्रजाः प्राजायन्त यथग्ना भग्निम् अधित्वा प्रभाज प्रजानः रुद्रो माहे यजमानः पशुरयत्पशमानभ्याग्निम् वन्ध्ये रुद्रा यजमानमपि दध्या प्रवाजकस्या च देवता हविरेव्यत्पशुदयपशुमानभ्याग्निम् मन्धति हव्यायैवादन्नाय सर्वा देवता जनयत्य भागत्यैव मन्धस्तन्नैवानब्धम् नैवानालब्धमज्ञाध्यैत्रमदेत्याहाग्नेप्येतैत्रम् विषणौश्चेत्याह सा वित्याहषण्ये तेर्था तेने अग्निङ्गायत्रछन्दाः प्रजायश्चेत्यान्दाभिरेवै मन्त्रे यत्यग्ने मथ्यमानाजानब्रोहेत्याहसा विक्रेवमन्वाहदभिदप्रसूदेवैनं वञ्चति याता जानब्रोहि प्रक्रियमाणाजानब्रोहेत्याकाण्डे काण्डदेवैरं क्रियमाणे समर्थैलिगायत्रे सर्वान्वाहदायत्र छन्दा वा अग्निस्वेनैवै मञ्चन्नसा समर्थयत्यग्निः पुरा भवत्यग्निम् अधित्वा प्रहरितौ सम्भवन्तौ विजमानमभितम्भवत भवदन्नस्तमनसा विद्याशान्त्ये प्रगत्यजुहोतिदाता नैवास्मानमविधाज्येन जेतद्वाग्नप्रियन्धामैराज्यम् प्रिय नैवैनन्धान्ना समर्थयत्यथो तेजसा विषयापेति बर्हिना दत्तगच्छदैव वाक्येन यो विज त्याहो वाक्ये नानागरो देवान् दैवेत्यास्मा देवमाह बृहस्पदे धारया वसूत्याह ब्रह्म वै देवानाम् बृहस्पतिर्ब्रह्म दैवास्मै वसूनवरन्धेहं जाते स्मदन्तामित्याह स्मदयत्येवैराम् देवत्र सर्वशुरन्वेत्याह पृष्ठामै पशूनां विशदानागं लोपद्रोपमेव पशुज तथा पशो नैवास्मै रमयजिमश्च प्रथमे बाहोभ्यामित्याहाश्विनो हि देवानामध्वर्योष्टाहस्ताभ्यामित्याहयत्या हृदस्यत्वा देवः विष्ट्वा नेदारभयत्याह सत्यं वा सत्येनैवेन मृते नारभते क्षयापरिहरतिवर्ध्यकं हि प्रत्यम् प्रतिमुञ्च दिव्यावृत्ते अभ्यक्तोक्षामेत्यैवेन उपनिष्ठा देवैनम् वेद्यम् करोति पालयत्यन्तरेवेण वेद्यम् करोताक्षरिवतदेवेण वेद्यम् करोति अग्निनामे भात्रादेवासुरानव्यभवन् अग्ने ्या हभ्यादनु याहो ते सप्तदशन्वाह सप्तदश प्रजापदय प्रजापदेनात् ते सप्तदशान्वाह द्वादश मासा पञ्चत्तरस्सम्वत्सरः संवत्सरं प्रजानः प्रजायन्दय प्रजाना प्रजानाय देवा वेदामिधेने ध नोच्च यज्ञन्दान्वश्यान् स प्रजापदयस्तोष्टे वाघार माघालयत्ततो वेदेवायज्ञान्वपश्यदयत् घारमाघारेत यज्ञस्यानुष्ठासेत् तन् देवास्तो होमेना रञ्जनयत्तोष्णे वाघानमाघारे जातरु यस्यैवज्ञं वङ्के वृधेन्तु द्वादश सम्पद्यन्त संवत्सरमेवर्गस्य लोकस्य समष्टे चज्ञस्य यदा यः सर्वा देवता यदा घारमा घारयतु शेष देवतावलम्भे च न वा एतद्यज्ञस्य यदा घारः पशुनाघालमाघार्य पशुगौ समनक्ष्यात्मन्नेव यज्ञश्च प्रयुधा प्राणावायुना गच्छदा मेत्याह वायुदेवत्यो मे प्राणावाजामेवास्य प्राणञ्जहो त्रेरङ्गानि यज्ञपतिराजनेत्याह यज्ञपदिमेवास्यरङ्गमयति विश्वरोपो मे त्वाष्ट उपरिष्टात् पशुमभ्यपमेत्तस्मादुपरिष्टात् पशुवान्नापद्यन्ति यदुपरिष्टात् पशव पशुकौषमनध्यमेन करो वर्णीते छन्दाकस्यैव वर्णीते सप्तवर्णीते सप्तग्रहानः सप्ताहण्या सप्तछन्दाकस्य भयस्यावरुध्यानेकादशप्रयाजा प्राणात्मैकादश यामानेव पशुस्तम्ब्रे जवामेकः परिजय आत्मैवात्मान परिशयेव सर्वभुजमेवैनम् करोत्यस्कन्धाया स्कन्दको हि तुजश्च स्कन्ददित्रिः पर्यज्ञि करो वित्रिया वृद्धि ज्ञातो रक्षसामपहत्यये ब्रह्मवादिना वदन् चन्वारभ्यः रभ्या इति वर्तते ये वाय नीयते यत्पशुस्तैयनन् वारभेदप्रमायको युवर्गाय वा एष लोका विनीयते यत्पशुर्वियन्नान् वारभेदसुवर्गान् लोकामानो हीयेतवपाश्रवणेभ्यामन् वारभदेतन्नेवान् वारब्धं नेवानन् वारब्धमुपप्रेष्य होदर्हव्या देवेभेत्याहे हि कर्म क्रियते देवदे यज्ञपदिम् प्रियथा विशदेत्याह यथा युजुरेवेतरज्ञिणा पुरस्ता ये विरक्षतामपहत्ते पृथिव्याः स्कन्दाया स्कन्नकम् एवर्यः पशोः सम्मानात्मशुभ्यजैव आत्मनो गच्छति श्रियम् प्रपशूनाम् श्चाल्लकामाय प्राच्युता नमस्ता नेत्याहारित्यस्य वेद स्मयास्तेभ्य एव नमस्कारेत्याह भ्यादुर्वार्वा भ्यादुर्ते घरस्य तुल्यामनु प्रयस्तो देवे शुद्धा णिप्राः यथा यतुरेवैतत् प्राणान् सुगृच्छति वा ताप्यायदाम् प्राणस्ताप्यायदामित्याह प्राणे वा जगौ शमय दिशा प्राणे पृथिवे प्रविशति समः सर्वेषु जगं शमय चोषधे प्रायस्मै नग्रस्पसि वै न गौ आच्चिमध्यतो हिमनुष्या आचन्द्येण माच्यो हिमनुष्या आच्चव्यावृत्ते रक्षसाम् भागो हेष्ठमतोहिरत्वापास्यत्तस्मै रक्षागं हि जलवदगतमागौ रक्षो धमन्तमो नयामिष्ठयञ्च वयं जष्मयत्या हदौ वावपुरुषो यञ्चैव्येष्ठेन वेष्ठिताभावसमन्तमो नयतेहे स्याध्यया वा पृथवेत्या हद्या वा पृथवीक्षन्ना रायसुवेर इत्याह यथा इदवेदत् क्रोरभि भवानेतकरोक्षिजत्तुर्वन्धने क्षमन्वेत्या लोकाच्छपदे यः पशुर्मृत्यवे नीयमानमं वारभदेवस्मिन्नेव लोके प्रतिष्ठत्यज्ञा पुरस्तादेव अथो देवता एव हिलान्ते त्रिलान् नमङ्गारमति हरे त्रिमङ्गारमति हरे देवता अधिमन्ये तवा योगी श्लोकानामित्याहरस्मा क्ता स्तोका अवपद्यन्ते ब्रह्मा एतत्पशूनां वा ग्रमोणधीनां पशोन्प्रतिष्ठा वयरिष्वाहा कृतेभ्यत्याह यज्ञस्य समिष्टै प्राणापानौ वा एतौ पशूनां पशूनां प्राणा धाति स्वाहोद् दणभसम् मारुतम् गच्छदमित्याहोद्वे मारुतो देवानाम्बपा श्रवणे प्रहरति देनैवेन प्रहरति विशोदे प्रहरतितस्माद्विष्पञ्च प्राणापानौ पशुमानभ्य पुरोडाश निर्वपरितमेशमेव न मालभदे भवया कुरोणाचेण प्रजरक्त्योर्जे पुरोणाशोर्जमेव पशूनाम् मध्यतो दधात्यशाद्रमपि दशाहत्यत्रि पृच्छति शतौ भवेत्याौषधमाहरेण प्राणापाणौ मारेतौ पशूनान्यम् पशुवखलब्धस्य हृदयमात्माभि पशूनां पशुनाभि देवास्वर्गं वागमायन्ते मन्यन्त्र मनुष्या भविष्यन्ते शिरस्य शिरश्चित्वा मेधम्प्राक्षारयन् प्रक्षोभोक्त प्रक्षस्तप्रक्षत्वयत्प्रक्षसाभोक्तरब यद्भवति समेधस्यैव पशुरवद्वये क्षाकस्य पञ्चाहमणीयञ्च हरज रक्षसामहत्येव हमिषोयमानस्यानुब्रूहेत्याहमनगे वास्यावरुन्ध एकादशापदानान्यवद्य प्राणात्मैकादशो यामानेवस्यावद्यते हृदयस्याग्रेव जिवायानो यद्वे हृदयेण जिग्या मदने यिग्या पूर्वयस्यैवम पदाय यथा काममुत्तरे कामभज्यते यथा पूर्वमेवास्य मसोनवत्त भवति मध्यतो गुरस्यावद्यदि मध्यतो हि प्राणमुत्तमस्यावद्यत्युत्तमो हि देवेभ्यः प्रजया पितुर्भ्ययेन वा नो यः पुत्री यज्वा ब्रह्मचारिवादे तदवदाने देवावदयते तदवदानामपदानत्वन्देवागुरास्ति यत्ता देवा अग्निमब्रुवन्तया वीरेणाधुरानपिभवा मे वृणे पशोनुद्धारमुद्धरायि निधरेणमुद्धारमुदहर्वार्धस्थगुलं मध्यजो ङ्गानागम् भवत्यक्षणया वद्यते तस्मादक्षणया पशवाङ्गानि प्रहरन्त्य प्रतिष्ठित्यैतथा प्रोन्नो जेदोरूपा वे पशवो रूपमेव पशुरथा तयोषं न वसाय प्रोन्नो पशूनाय यद्योरथमेव पशुरथादिपार्श्वे नवसा होमम् प्रयोजि मध्यं मा एतत्पशोनायत्पार्श्वगौरथ एष पशोनाय यद्वसा यत्पार्श्वे नवसा होमम् प्रयोजि मध्यथ एव पशोना गौरन्त एतत्पशु यत्संजयन्त्यैन्द्रः खलु मे देवतया प्राण ऐन्द्रः प्राण ऐन्द्रः प्राणो अङ्गे अङ्गे भोजकुंद मे ृत्या हत्वाष्ट्राहि देवतया विषुलोपायस्वलक्ष्माणा विषलोपाख्ये सन्तः स्वलक्ष्माण एकवन्ति भत्रायसेखायो मातापितरामनन्वित्याहानुमतमेवैनं गङ्गमयत्येव इयमर्धत्यषे वरसेना समवृन्धे प्राणापानो वा एतोपशोनान्यकृतदाज्यम् वा नस्पत्याः खलु वै देवतया पशुभो यत्कृतधाज्यस्योपहत्या हवनस्पत जनद्वो हि वनस्पतय वैश्वेरि प्राणापाना वेम पशुन पशुजधातिडावपक्वयदे पथवो वायिणा पशुनेवोपक्वयदे चतुर्पक्वयदे चतुष्पादो हि पथवोयं कामजेता पशुस्यादित्तमेधस्तस्मादध्यान् वेदोरूपा वै पसवो रूपेण पशुभ्यो दुर्भजत्त पशुरेव भवमजेत पशुमान्स्यादिध्यान् वेदोरूपा वै पशवो नैवास्ते पशूनवरुन्धे पसुमानेव पुरस्तादसज पशुर्मः पृणधाजम् पश्चात्तस्पादाजेन प्रयान्ते पशुनामध्यः प्रणधाजनानुस्मादे प्राणात्मैकादशो यावानेव्यन्ति वा एतत्पशु यत्सम् प्राणापानो न्यषदाज्यञ्जदाज्यनानो याजानि यजय वेव वैव पशुषतसागे ओ